मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायम् एय् नानाक्षेत्रदेवोत्पत्तिवर्णनं श्रीगणेशाय नमः भृश्युण्ड्युवाच चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः अधुना द्वारविस्तारं कथयामि समासदः पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादराद ब्रह्माण्डे वैष्णवान्येव क्षेत्राणि विविधानि च तानि तेन प्रसृष्टानि गणेश तद प्रसृष्टा क्षेत्र विविधा तो लक्ष्मीवासक्य प्रोक्ता शास्त्रसमदिण शक्तिशिव दौ तथा गणेश युगौ परौ क्षेत्राणि चक्रतुः क्षेत्राणि यानि ब्रह्माण्डे स्वयं शैवानि शङ्करः ससृजे च तदशक्तिशाक्तानि विविधानि वै रदि कामौ ससृजदुः पश्चिमद्वारसंस्थितौ प्रभावाद्विघ्नराज्यस्य क्षेत्राणि किल मायया क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नदः दिक्पालक्षेत्ररूपाणि सृष्ठानि मदनेन तु उत्तरद्वारसंस्तौ तौ मही वाराह परौ स्वक्षेत्राणि ससृजदुःपरौ गणपमायया संज्ञाक्षेत्राणि यावन्ति भूम्यां सृष्ठानि तानि तु सौराण्येवं वराहेण सृष्ठानि विविधानि तु परिवार युदा परम ुदेवा महद क्षत्रा क्षत्रसंता देवं गजाननं तोषया मासुरत्यंत गजाननम नित्यं सुरत्यंतिया उपोषणयुतानि क्षेत्राणि ता देवतास्तथा पूजया मासुरव्यग्राह क्षेत्रस्थं गणनायकम् एवं वर्ष पूर्णे प्रसन्नो भूद्गजाननः अययौ तान् वरान् दातुं सक्षेत्रान् देवमुख्यकान् तं दृष्ट्वा सहसोद्धाय प्रणेमुस्ते गजाननं पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः सक्षेत्रा देवा ऊचुः ब्रह्मणे विघ्नराजाय स्वानन्दस्ताय नमः आदि आदिमध्यादिमध्याण गणेशा नमस्तुभ्यं भुक्मुक्प्रदिने नानाखेला वज्यराजा ते नम सृष्टिकर्े ज संहर्े पात्रे मोह प्रचारिणे गुणेशा गुणानां तु चालकाय नमो नमः परेशाय परेशेभ्यो मोहदाय गजानन सर्वयोगमयायैव योगेशाय नमो नमः सिद्धिबुद्धिपदे तुभ्यं सिद्धिबुद्धिमयाय च सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने पश्चिमाङ्गे च रवये उत्तराङ्गके चतुर्विधं गणेशान् सृष्ट्वा केलसि नित्यदा नानाविधं तथा त्वां तु कश्च स्तोधुं क्षमो भवेद् वयम् धन्या वयम् धन्या दृष्टवन्दो गजाननम् ब्रह्मणस्पदि नामानम् ब्रह्मणाम् चालकम् परम् यं स्थोदुम्न समर्थाश्च वेदा साङ्गा गजानन प्रस्तुमश्च देवेश अतस्त्वाम् प्रणमामहे एवं स्तुत्वा गणेशानं देवाः क्षत्रसमन्विताः प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः तदस्तान् प्रत्युवाचेदं वचनं गणनायकः भक्तान् भक्तिप्रियसाक्षात्तपसा तोषितः परः श्रीगणेश उवाच वरम्बदमहाभागाः सक्षेत्रा देवमुख्यकाः दास्यामि तपसातुष्टो भक्त्या स्तोत्रेण चेप्सितं स्तोत्रं भवत्कृतं चैव यः समत्प्रियो भवेद्देवाशृणुयाच्छावयेत्तथा भुक्रिमुक्रिप्रदं चैव धनधान्यविवर्धनं पुत्रपौत्रप्रदं पूर्णं भविष्यदि सुसिद्धिदं मम सन्निधिको भूत्वा पठति स्तोत्रमुत्तमं सर्वक्षत्रभवं पुण्यम् लभते नात्र संशयः गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः सक्षेत्रा देवा ऊचुः यदि प्रसन्नभावेन वरदोऽसि गजानन तदाधे पादपत्मे नो नित्यदा किमर्थं तु वयं सर्वे सृष्टावद गजानन कार्यं ब्रूहि करिष्यामस्त्वदाज्ञावशभावदः स्वानन्दे वासकार्यार्थं देहिस्थानं महोदर तत्र पूजयिष्यामो नित्यं भक्तिसमन्विताः स्वस्वज्ञानयुगान्नाथ कुरु सर्वान् महामदे त्वदीयावशगाः सर्वे ज्ञानयुक्ता भजामहे भुष्युण्ड्युवाच तेषां वचनमाकर्ण्य गणेशकरुणानिधिः जगादतान् महाभागान् भक्तियुक्तान् महेश्वरान् श्रीगणेश उवाच धर्मार्थ काममोक्षान् वै ददतुक्षेत्रकाणि मे वरदानात् समर्थानि स्वस्वकार्येषु सेविनां धर्मदान्येव कानिचित् सेविनां तथा कामदानि भवन्त्येव मोक्षदानि विभागशः काचिमरे सद्यल तो कचिक क्रमयोग मुख्यक्षेत्र प्रदान तो तथा देवास्त पूजन फलप्रदर्शन स्वस्वेत्रित्मका नामानि गणनाधश्च चकारविधानि सह काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते पुनः स तानुवाचासौ गणेशः करुणानिधिः क्षेत्राणि स्वकलांशेनस्तादव्यं स्वस्थलेषु वै पूर्णशन मदीएत्र क्षेत्रे स्वनंदरूपिणी वाह मंद भजिष्यध निरम स्वक्षेत्रस्थाधा देवा कलाशेन भवेद वै क्षेत्रेत्र पूर्णभावेन मां भजेताध मानदाः स्वस्वकार्येषु दक्षा वै भविष्यधनसंशयः मद्भक्तिभावसंयुक्ताः स गर्वहीनकाः सर्वक्षेत्राणि ये भूम्याम् करिष्यन्ति विधानदः देवान् यथा विधिप्राज्ञा पूजयिष्यन्ति मानवाः तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः ब्रह्मभूता भविष्यन्ति मत्क्षेत्रे सदी येव एव मुक्त्वान्तर्दधेस्सौ गणेशो ब्रह्मनायकः क्षेत्राणि हर्षयुक्तानि संस्थितान्येव तत्र तु पूजयित्वा गणेशानां स्वस्वस्थानकमाययुः स क्षेत्रा देवता सर्वाज्ञानयुक्ता बभूवि रे तथा सर्वे महेश्वराः कृत्वा पुनर्गणेशानं समाजग्मुःप्रकर्षिताः तत्र ते संस्थिता देवास्सक्षेत्रह्रस्वरूपकाः स्वानन्दक्षेत्रके सर्वे भजन्नित्यं तमादराद य क्षेत्रामराणां वै चेष्टिदं यशृणोदि वा पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॐ तत्सदिति श्रीमदा्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ओ